पण्डगमोध्यायः ओ उत्तरचरित्रस्य रुद्ररिचिः महासरस्वतीदेवता अनुष्ठन्दः भीमाशक्तिः धामरीबीजम् सूर्यस्तत्त्वम् सामवेदत्वरूपम् महासरस्वतीत्यर्थे उत्तरचरित्रपाठे विनियोगः ओम् घण्टाशोलहलानि शङ्खमुदले चक्रम् धनुस्तायकम् ओम् घण्टाशोलहलानि शङ्खमुदले चक्रम् धनुस्सायकम् हस्ताब्द्रेर्दधतीम् घनान्तविरध सीताम् सुतुल्यप्रभाम् ैर्दधतीम् घनान्तविरदशीताम् सुतुल्यप्रभाम् औरीदेहतमद्भवान् त्रिजगतामाधारभूताम् महापूर्वामत्र मनुभजे। कुम्भाजिरैत्यार्जिनी ओ क्लीम् ॐ क्लीम् पुरासुम्भाभ्या मधुराभ्याम् सजीवतेः पुरा कुम्भनि सुम्भाभ्या मधुराभ्याम् स जीवतेः त्रैलोप्यं यज्ञभागात्रभृता मतबलाश्रयात् त्रैलोग्यम् यज्ञभागाश्च हृदा मदबलाश्रयात् तावेव सूर्यताम् तद्वदधिकारम् प्रथैन्दवम् तावेव सूर्यताम् तद्वदधिकारम् प्रथैन्दवम् कौवे रमथयाम्यम् स चक्राते कौवे रमथयाम्यम् स चक्राते वरुणस्यत तावेवपमनभ्यम् सचक्रतुर्गन्निकर्म तावेवपमनभ्रिंशचक्रतुर्वकर्म च ततो देवा विनिर्भूताभ्यक्षराज्याः पराजिताः ततो देवा विनिर्भूताभ्यक्षराज्याः पराजिताः ततो देवा विनिर्भूताभ्यक्षराज्याः पराजिताः ततो देवा विनिर्भूताभ्यक्षराज्ञाः पराजिताः महासुराभ्याम् ताम् देवीम् अम्स्मरम् च पराजिताम् महासुराभ्याम् ताम् देवीम् अम्स्मरम् च पराजिताम् तयास्माकम् वरोदत्तो यथापस्तु स्मृताखिलाः तयास्माकम् वरो दत्तो यथापस्तु स्मृताखिलाः भवताम् नाशयिष्यामि दक्षणात् परमापदः इति कृत्वा मतिम् देवा हिमवन्तम् नगेश्वरम् इति कृत्वा मतिम् देवा हिमवन्तम् नगेश्वरम् जग्स्तत्र ततो देवीम् विष्णुमायाम् त्वत्र ततो देवीम् विष्णुमायाम् त्वेवा ऊषुः नभो ये व्यै महादे व्यै शिवायै सततम् नमः नभमो ये व्यै महादेव्यै शिवायै सततम् नमः नभवप्रकृत्यै भद्रायै नियताः प्रणतास्पताम् नभवप्रकृत्यै भद्रायै नियता प्रणतास्पताम् गौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः गौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्द्रौपिण्यै दुहायै सततम् नमः ज्योत्नायै चेन्द्रोपिण्यै दुहायै सततम् नमः कल्याण्यै प्रयताम् वृद्धे तिभ्यै कुर्मो नमो नमः कल्याण्यै प्रयताम् वृद्धे तिभ्यै कुर्मो नमो नमः नैव नित्यै भूभृताम् लक्ष्म्यै सर्वाण्यैते नमो नमः नैव नित्यै भूभृताम् लक्ष्म्यै सर्वाण्यैते नमो नमः दुर्गायै दुर्गपालारी सादारी सर्वकारिण्यै दुर्गायै दुर्गपालारी सादारी सर्वकारिण्यै ह्याद्यै तथैव कृष्णायै धूम्रायै सततम् नमः याज्यै तथैव कृष्णायै भूम्रायै सततम् नमः अरलिभौम्यातिरौद्रायै नतास्तत्यै नमो नमः अरलिभौम्यातिरौद्रायै नतास्तत्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः यादेवी सर्वभूतेणुविस्कुमारेतिसर्जिता यादे सर्वभूतेषु विष्णुमायेऽपि गर्जिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यारे वि सर्वभूते तु चेतनेत्यभिधीयते नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु बुद्धिरूपेण संस्थिता यादेवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु निद्रारूपेण संस्थिता यादेवी सर्वभूते सुनिद्रारूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूते गृक्फुढारूपेण संस्थिता यादेवी सर्वभूते गृक्पुढारूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः याने या विसर्वभूते तु छायारूपेण संस्थिता याने विसर्वभूते तु छायारूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः याने विसर्वभूते तु शक्तिरूपेण संस्थिता यादेवी सर्वभूतेषु शक्तिरूपेण कं स्थिरा नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु कृष्णारूपेण कम् स्थिरा यादेवी सर्वभूतेषु कृष्णारूपेण कम् नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता यादेवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु जातिरूपेण संस्थिता यादे वीसर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः याजे बीसर्वभूतेषु लज्जारूपेण संसिता यादे सर्वभूतेषु लज्जारूपेण संसिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु कान्तिरूपेण संस्थिता यादेवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता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 नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता यादेवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु भक्तिरूपेण संस्थिता यादे वी सर्वभूतेषु भृतिरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादे वी सर्वभूतेषु भृतिरूपेण संस्थिता यादे वी सर्वभूतेषु भृतिरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः याजे वि सर्वभूतेषु दयारूपेण संस्थिता याजे वि सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः याजे वि सर्वभूतेषु तुष्टिरूपेण संस्थिता याजे वि सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु मातुरूपेण संस्थिता यादेवी सर्वभूतेषु मातुरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता यादेवी सर्वभूते सुभ्रान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः इन्द्रियाणामलिर्घात्रीभूतानाम् चाखिलेभूया इन्द्रियाणामलिर्खात्रीभूतानाम् चाखिलेभूया भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः भूते कृतशतम् तस्यै व्याप्तिदेव्यै नमो नमः स्थितिरूपेण या कृष्णवे एतद्व्याप्यर्पिता जगत् स्थितिरूपेण या कृष्णवे एतद्व्याप्यर्पिता जगत् नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः नमस्तस्यै नमो नमः पूर्वमभीक्षतम्श्वयात् सुरात्सुरैः पूर्वमभीकृतम् स्वयात् तथा सुरेन्द्रेण दिनेषु सेविता कथा सुरेन्द्रेण दिनेषु सेविता करोतु कानः सुबहे तुरीश्वरी करोतु कानः सुबहे तुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः शुभानि भज्रान्यभिहन्तु चापदः या ताम् प्रतम् चोद्धतैत्यताभितैः या ताम् प्रतम्सोद्भदतैत्यताभितैः अस्माभिरीकारपुरेव नमस्यते अस्माभिरीचारपुरेव नमस्यते यात श्रुतातत्क्षणमेवहम् दिनः यात श्रुतातत्क्षणमेवहम् दिनः सर्वावरोभद्विनम्रमूर्तिभिः सर्वावरोभ्रिभिनम्रमूर्तिभिः विशिरुवाच एवम् स्तवादियुक्तानाम् देवानाम् तत्रभाती एवं स्तवादियुक्तानाम् देवानाम् तत्रभाती ना तुमध्याययोतो ये गान्भव्यानृपनन्दन ना तुमध्याययोतो ये गान्भव्यानृपनन्दन ताप्रदीप्तान् ताब्रवीत्तान् सुरान् शुभ्रोर्भवद्भिः सूयते प्रका करैरकोशतस्था स्यात् देवैस्तमेतैस्तमरे निशुम्भेन पराजितैः देवैस्तमेतैस्तमरे निशुम्भेन पराजितैः शरीरकोशाद्यक्तस्यार्वत्यानि श्रिताम्बिका शरीरकोशाद्यक्तस्यार्वत्यानि श्रिताम्बिका कौशिगीतिसमस्तेषु ततो लोकेषु गीयते कौशिगीतिसमस्तेषु ततो लोकेषु गीयते तस्याम् विनिर्गत अयान्तु कृष्णाभूत्सापि पार्वती तस्याम् विनिर्गत अयान्तु कृष्णाभूत्सापि पार्वती कालिकेऽपि समाःख्याता हिमाचलकृताश्रया कालिकेति समाःख्याता हिमाचलकृताश्रया ततोऽम्विकाम् परमरूपम् विभ्राणाम् सुमनोहरम् ततोऽम्विकाम् परमरूपम् द्विभ्राणाम् सुमनोहरम् दधर्गतन्दोमुण्डश्च भृत्यौ सुम्भनिशुम्भयोः दधर्गटन्दोमुण्डश्च भृत्यौ सुम्भनिशुम्भयोः ताभ्याम् सुंहायता ज्ञाता अतीवसु मनोहरा ताभ्याम् सुम्हायता ज्ञाता अतीवसु मनोहरा काप्यास्ते श्रीमहाराजभाषयन्ती स्याे श्रीमहाराजभासयम् चि हिमाचलम् नैव ताक्वतिध्रूपम् दृष्टम् केनचिदुत्तमम् नैव ताक्वतिध्रूपम् दृष्टम् केनचिदुत्तमम् ज्ञायताम् काप्यसौ देवी गृह्यताम् चासुरे ज्ञायताम् काप्यसौ देवी गृह्यताम् चासुरे श्रीरत्नमति दार्भङ्गी द्योतयम् श्रीरत्नमतिदार्भृङ्गी द्योतयम् दीविसत्विका सा तु तिष्ठदिदैत्येन्द्र आम्भवान् दृष्टुमर्हति सा तु तिष्ठदिदैत्येन्द्र आम्भवान् दृष्टुमर्हति यानि रत्नानि मणयो गजाश्वादीनि वैप्रभो यानि रत्नानि मणयो गजाश्वादीनि वैप्रभो त्रैलोक्येतुसमस्तानि साम्प्रतम् भ्रान्ति ते गृहे कैलोक्येतु समस्तानि साम्प्रतम् भ्रान्ति ते गृहे गजरत्नम् पुरन्दरात् ऐरावतस्तम हनीतो गजरत्नम् पुरन्धरात् पारिजाततरुष्टायम् तथैवोच्चैस्कवाहयः पारिजाततरुष्टायम् विमानम् हन्ततम् युक्तमेतत् तिष्ठतितेङ्गणे ररत्रभूतमिह अनीतम् यदासीद्वेधोद्भुतम् रदत्रभूतमिह अनीतम् यदासीद्वेधोद्भुतम् निधिरेकमः अपस्मत्तमानिरेकमः अपत्मत्तमाणि गोढनेश्वरात् किञ्जल्किनीम् ददौ किञ्जल्किनीम् ददौजाभिर्मालामम्लानपङ्कजा सत्रम् तेवारुणम् गेः काञ्चनत्रादितिष्ठति हत्रम् तेवारुणम् गेः काञ्चनस्त्रादितिष्ठति ते सभायम् स्यन्दनवरो यः पुरासीत् प्रजापतेः सभायम् स्यन्दनवरो यः पुरासीत् प्रजापतेः मृत्योरुत्क्रान्तिदा नाम शक्तिरीष त्वया मृत्योरुत्क्रान्तिता नाम चक्तिरीशत्वया हृता पादस्तिलराजस्य भातुस्तमपरिग्रहे पादस्तजस्य भातुस्तमपरिग्रहे निशुम्भस्याभिजाताश्च समस्तारप्रजातयः निशुम्भस्याभिजाताश्च समस्तारप्रजातयः वह्निरपि दतो तुभ्यमग्निकौचेतवासती वह्निरपि ततो तुभ्यमर्नितौ चेतवा एवम् दैक्येन्द्ररत्नानि समस्तान्यासृतानि ते एवम् दैक्येन्द्ररत्नानि समस्तान्यासृतानि ते श्रीरत्कमेषा कल्याणि त्वयाकस्मान्नते श्रीरत्कमेषा कल्याणि त्वयाकस्मान्न गृह्यते ऋषिरुवाच निशम् एति भजः शुम्भत्तरदा चण्डमुण्डयोः निशम् चण्डमुण्डयोः क्लेषयामास सुभ्रीवम् देव्या महापुरम् क्लेषयामास सुभ्रीवम् देव्या महापुरम् इति चेति च मम इति चेति च मम यथाभ्येजित प्रेतिया तथा कार्य लभु यहां प्रेतिया तथा कार्य लघु ते तैलोदे से शोभने त्र ग्रास्ते तैलोतिशोभने तत प्राहनम मधुरया सा चे गीताम् ततः प्राहनम् मधुरया गिरा भूतौ वाच देविदैत्येश्वर शृंहत्रैलोक्ये परमेश्वरः देविदैत्येश्वरशंहत्रैलोक्ये परमेश्वरः दूतोऽहम् प्रेजितस्तेन त्वत्सका समिहागतः दूतोऽहम् प्रेजितस्तेन अव्याहता यः सर्वासु यदा देवयोनिषु अव्याहता यः सर्वासु यदा देवयोनिषु निर्जिता किलदै श्यारिष्टयदाः शृणुस्वतते निर्जिता किल दै श्यारिष्टयदाः शृणुस्वतते मम त्रैलोक्यमखिलम् मम देवावशानुगाः मम त्रैलोक्यमखिलम् मम देवावशानुगाः यज्ञभागानहम् सर्वानुपास्नामि पृथक् कृषग यज्ञभागानहम् सर्वानुपास्नामि पृथक् कृषक त्रैलोग्येवरत्नानि ममवस्यान्यते सतः त्रैलोग्येवरत्नानि ममवस्यान्यते सतः तथैव गजरत्नम् स क्षीरोदमथनोद्गोतमस्वरत्नम् ममामरैः क्षीरोदमथनोद्गोतमस्वरत्नम् ममामरैः उत्तै श्रमसतम् ज्यन्तनप्रणिपत्य समर्पितम् उत्तै श्रमसतम् ज्यनन्तनप्रणिपत्य समर्पितम् यानि चान्यानि देवे सुगन्धर्मेषु रगेषु च देवे दुगन्धर्मेषु रगेषु रत्नभूतानि भूतानि तानि मय्येव शोभने रत्नभूतानि भूतानि तानि मय्येव शोभने श्रीरत्नभूताम् त्वाम् देवि लोके मन्यामहे वयम् श्रीरत्नभूताम् त्वाम् देवि लोके मन्यामहे वयम् सात्वमस्मानुपागच्छयतो रत्नभुजो वयम् सात्वमस्मानुपागच्छयतो रत्नभुजो वयम् माम् वा ममाुजम् वापि निपुम्भमुरुविक्रमम् माम् वा ममारुजम् वापि निपुम्भमुरुविक्रमम् भयत्वम् चञ्चलवाङ्गिरत्नभूतादिवैयतः भयत्वम् चञ्चलावाङ्गिरत्नभूतादिवैयतः परमेश्वर्यमतुलम् प्राप्स्यते मत्परिग्रहात् परमैश्वर्यमतुलम् प्राप्स्यते मत्परिग्रहात् एतद्बुद्ध्या समालोस्य मत्परिग्रहताम् ग्रज एतद्बुद्ध्या समालोस्य मत्परिग्रहताम् ग्रज ऋषिर्वाच इत्युक्ता तदा देवी गम्भीरान्तस्मिता जगौ इत्युक्ता तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती वज्राय एवम् धार्यते जगते दुर्गा भगवती वज्राय एवम् धारयते जगत् देव्युवाच सत्यमुक्तम् त्वया नाश्रमिच्छा किञ्चित् प्रयोजितम् सत्यमुक्तम् त्वया नाश्रमिच्छा किञ्चित् प्रयोजितम् त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापितादृतः त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापितादृतः कथम् किम् तत्र यत्प्रतिज्ञातम् नित्यातः क्रियते कथम् श्रूयतामल्पबुद्धित्वात्प्रतिज्ञाया कृता पुरा श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया कृता पुरा प्रति यो माम् जयति सङ्ग्रामे यो मे दर्पम् जपोहति यो जयति सङ्ग्रामे यो मे दर्पम् जपोहति यो मे लोके तमे भर्ता भविष्यति व्यो मे प्रतिपलो लोके समे भर्ता भविष्यति तदा गच्छतु शुम्भोऽस्त्र निशुम्भो वा महातुरः तदा गच्छतु शुम्भोऽस्त्र निशुम्भो वा महातुरः माम् जित्वा किम् चिरेणात्रपाणिम् गृह्णातु मे लघु माम् जित्वा किम् चिरेणात्रपाणिम् गृह्णातु मे लघु भूत उवाच अवलिप्तासि मैवम् त्वम् देवि अवलिप्तादिवैवम् त्वम् देविभ्रूहि ममाग्रहः त्रैलोप्येकः पुमाम् स्तिक्षे धग्रेतुम् धनिशुम्भयोः तैलोप्येकः पुमाम् स्तिक्षे धग्रेतुम् अन्ये कामपि सर्वे देवानवैयुभि अन्ये कामपि सर्वे देवानवैयुभिः तिक्षन्ति सम्मुखे देवि किम् पुनत्रीत्वमेखिता तिक्षन्ति सम्मुखे देवि किम् पुनस्त्रीत्वमेखिका इन्द्राद्यास्तकलादेवास्तस्फुलयेखाम् न संयुगे इन्द्राद्यास्तकलादेवास्तस्फुलयेखाम् न संयुगे शुम्भादीनाम् कथम् तेषाम् स्त्री प्रयास्यसि सम्मुखम् शुम्भादीनाम् कथम् एकाम् स्त्रीक्रयास्यसि सम्मुखम् सात्वम् गच्छमय इवोक्ता पार्श्वम् शुम्भनि शुम्भयोः सात्वम् गच्छमय इवोक्ता पार्श्वम् शुम्भनि शुम्भयोः हे किम् करोमि प्रतिज्ञामे यदनालोचिता पुरा किम् करोमि प्रतिज्ञामे यदनालोचिता पुरा तत्त्वम् गच्छमयोक्तं ते यदेतत्सर्वमादृतः तत्त्वम् गच्छमयोक्तं ते यदेतत्सर्वमादृतः तदा चक्ष्वातुरेन्द्राय सतयुक्शङ्करो सुतते तदा चक्ष्वातुरेन्द्राय सतयुक्तङ्करो सुतते ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये देव्याधूपसंवादो नाम पञ्चमोऽध्यायः ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये ेव्या दूतसंवादो नाम पञ्चमोऽध्यायः